नारदपुराणम् पूर्वार्थम् अध्यायम् ट्वेल्व् नारद उवाच श्रुतम् तु गङ्गामाहात्म्यम् वाञ्छितम् पापनाश्यनं अधुना लक्षणम् ब्रूहिभ्राधर्मे दानपात्रयोः सनक उवाच सर्वेषामेव वर्णानाम् ब्रह्मणः परमो गुरुः तस्मै दानानि देयानि दत्तस्यानन्द्यमिच्छता ब्राह्मणः प्रदिगृह्णीयात् सर्वतो भयवर्जितः न कदापि क्षत्रविश्वो गृह्णीयाम् प्रदिगृहम् चन्दस्य पुत्रहीनस्य दंभाचाररथ सेकर्मत्यागीफल पररत्रव्याल नक्षत्रूचक दत्म निष्फल असूयान स कृदघ्नस्य च मायिनः अयाज्ययाचकस्यापि दत्तं भवति निष्फलम् नित्यं याज्ञापरस्यापि हिंसकस्य खलस्य च रसविक्रयिणस्वैव वेदविक्रयिणश्चापि स्मृतिविक्रयिणस्तथा धर्मविक्रयिणो विप्रदत्तं भवति निष्फलम् गानेन जीविकायस्य यस्य, यस्य भार्या च पुंस्थली परोपतापिनश्चापि दत्तं भवति निष्फलम् असि जीवी मशी जीवी देवलो ग्रामयाजकः धावकोवा वा भवेत्तेषां दत्तं भवति निष्फलम् पाककर्तुः परस्यार्थे कवये गदहरिणे अभक्ष्य भक्षकस्यापि दत्तं भवति निष्फलम् शूद्रान्न भोजिनश्चैव शूद्राणां शवदाहिनः पांश्वलान्न भुजश्चापि दत्तं भवति निष्फलम् नाम विक्रयिणो विष्णोः सन्ध्याकर्मोतस्य च दत्तं भवति दिवा शयनशीलस्य तथा मैथुनकारिणः सभ्याभोजिनयेवापि दत्तं भवति निष्फलम् महापादकयुक्तस्य त्यक्रस्य ज्ञादिबान्धवैः कुण्डस्य चापि गोलस्य दत्तं भवति निष्फलम् परिवित्तेषस्यापि परिवत्तुः प्रमादिनः स्त्रीजिदस्यादिदुष्टस्य दत्तं भविदनिष्फलम् मध्यमांसासिनश्चापि स्त्रीविडस्यादि लोभिनः चौरस्य पिशुनस्यापि दत्तं भवति निष्फलम् ये केचित्पापनिरता निन्दिता सुजनैः सदा न तेभ्यः प्रतिगृह्णीयान्न च वद्याद्विजोत्तमा सत्कर्मनिरतायापि देयं यत्नेन नारदा यद्दानं श्रद्धया दत्तं तथा विष्णुसमर्पणम् याचितम् वापि पात्रेण भवेत्तद्दानमुत्तमम् परलोकम् समुद्दिश्य हैहिकम् वापि नारद यद्दानम् दीयदे पात्रे तत्काम्यं मध्यमं स्मृतम् दग्धेन चापि हिंसार्थम् परस्या विधिनापि च क्रुद्धेना श्रद्धया पात्रे तद्दानम् मध्यमम् स्मृतम् अधमम् बलितोषाय मध्यमम् स्वार्थसिद्धये उत्तमम् हरिप्रीत्यर्थं प्राहुर्वेदविदाम्बराः दानभोगविनाशाश्च रायस्योर्गदयस्तृथा यो ददाति च नो भुक्ते तद्धनं नाशकारणं धनं धर्मफलं विप्रधर्मो माधवतुष्टिकृत। तरव किं न जीवन्ति तेऽपि लोके परार्थकाः यत्र परकार्यम् प्रकुर्वदे मनुष्या यदि विप्राघ्ना न परार्थास्तदा मृताः परकार्यं नये मर्ध्या कायेनापि धनेन वा मनसा वचसा वापि ते ज्ञेयाः पापकृत्तमाः अत्र वक्ष्यामि शृणु नारद तत्त्वदः यत्र दानादिकानां तु लक्षणं परिकीर्तितं गङ्गामाहात्म्यसहितं सर्वपापप्रणाशनं भगीरथस्य धर्मस्य संवादं पुण्यकारणम् आसीत् भगीरथो राजा सगरान्वयसम्भवः शशाश्वपृथिवीं मेदां सप्तद्वीपां ससागराम् सर्वधर्मरतो नित्यं सत्यसन्धः प्रदापवान् कन्दर्प सप्दशोरूपे याय दृग्गो विचक्षणः प्रालेयाद्रिसमो धैर्ये धर्मे धर्म समो नृपः सर्वलक्षणसम्पन्नः सर्वशास्त्रार्थपारगः सर्वसम्पत्समयुक्तसर्वानन्दकरो मुने आदित्यप्रयदो नित्यं वासुदेवार्चनेरधः पराक्रमी गुणनिधिर्मैत्रकयुनिकः सधीः दृशम् तम् राजानम् ज्ञात्वा हृष्ठो भगीरथम् धर्मराजो द्विजश्रेष्ठ कदाचित् द्रष्टुमागतः समागतम् धर्मराजम् अर्हयामास भूपदिः शास्त्रदृष्ठेन विधिना धर्मः प्रीतिरुवाच धर्मराच उवाच राजन्धर्मविदां श्रेष्ठप्रसिद्धोऽसि जगत्त्रये धर्मराजोधकीर्तिं ते श्रुत्वा त्वां द्रष्टुमागधः सन्मार्गनिरदं सत्यं सर्वभूत हि देरधं द्रष्टुमिच्छन्ति विबुधारदवोत्कुष्टगुणप्रियाः कीर्तिर्निदिष्टसम्पत्तिर् वर्तदे यत्र भूपदे वसन्ति तत्र नियतम् गुणाः सन्तश्च देवताः अहो राजन्महाभागशोभनीचरितम् तव सर्वभूतः हि दत्वादिमादृशामपि दुर्लभम् इत्युक्तवन्तम् तम् धर्मम् प्रणिपत्य भगीरथः प्रोवाचविनयाविष्टत्संहृष्टस्वक्ष्मया गिरा भगीरथ उवाच भगवन् सर्वधर्मज्ञसमदर्शित् सुरेश्वर कृपया परयाविष्टो यत्पृच्छामि वदस्व तदधर्मा कीदृग्विधा प्रोक्ता के लोकाधर्मशालिनाम् कि यत्यो यादना प्रोक्ताकीर्तिया संनीया ये शास ये ये महाभागव विस्तरा वक्तुमसी धर्मराज उवाच साधु साधु महाबुद्धे मधिस्थे विमलोर्जिद धर्मार्थार्मान् प्रवक्ष्यामि तत्त्वदशृणु भक्तिदः धर्मा प्रोखदा प्रोक्ता पुण्यलोकप्रदायकाः तथैव याधना प्रोक्ता असङ्ख्या कोरदर्शताः विस्तराद्गदिदुम्नालमपि वर्षशदा युतैः तस्मादं समासतो वक्ष्ये धर्मा धर्म निदर्शनं वृत्तिदानं द्विजानां वै महापुण्यं प्रकीर्तदं तथैवाध्यात्मविदुषो दत्तं भवति चाक्षयम् कुटुम्बिनीम् या शास्त्रज्ञं श्रोत्रियं वा गुणान्वितं यो दत्त्वास्यापये हृदिं तस्य पुण्यफलं शृणु मा धृताः पितृतश्चैव द्विजकोडिकुलन्विदः निर्वीश्य विष्णुभवनं कल्पं तत्रैव मोददे गण्यन्ते पांसवो भूमिर्गण्यन्ते वृष्टिविन्दवः न गण्यन्ते विधात्रापि ब्रह्म वृत्तिफलानि वै समस्तदेवतारूपो ब्राह्मणपरिकीर्तिदः जीवनं दधत्तस्तस्य कः पुण्यम् गदितुं क्षमः यो विप्रहिदकृन्नित्यम् स सर्वान् कृतवान्मकान् स तेनाखिलं तपः यो दतस्वेदि विप्राणाम् जीवनं सोपि सोऽपि तत्फलमाप्नोति किमन्यायबहुभाषितैः तडागं कारयेद्यस्तु स्वयमेवापरेण वा वक्तुं तत्पुण्यसंख्यानं नालं वर्षशदायुषा ये गच्छेदग्गो राज्यं तडागस्य जलं पिबेदक कर्तुः सर्वपानि नश्यन्त्येव न संशयः एकाहमपि यत्कुर्याद्भूमिस्तमुदगम् नरः समुक्तसर्वपापेभ्यशदवर्षम् वसेद्दि कर्तुं तडागम्यो मर्त्य साख्यक्रितो भवेद सोऽपि तत्फलमाप्नोदि तुष्टः प्रेरक मृदं सिद्धार्थमात्रां वा तडागाद्यो वहिः क्षिपेद स्वर्गे विमुक्तः पापकोडिभिः देवता यस्य तुष्यन्ति गुरवो वा नृपोत्तम तडागपुण्यभाक्सस्यादित्येषा शाश्वती श्रुतिः इतिहासंप्रवक्ष्यामि तव अत्र नृपसतमयं श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः दिविख्यादो राजा सेद्वीरभद्रकः महाप्रदापि विद्यावान सदा विप्रपूजकः वेदशास्त्रकुलाचारयुक्तो मित्र र्धनः तस्य राज्ञी महाभागानान्मा चम्बगमञ्जरी तस्य राज्ञो महामात्या कृमा कृस्य विचारणाः धर्माणाम् धर्मशास्त्रेस्तु सदा कुर्वन्ति निश्चयम् प्रायश्चित्तम् चिकित्साम् च ज्योतिषे धर्मनिर्णयम् विनाशास्त्रेण यो ब्रूयातमाहो ब्रह्मखातकम् इति निश्चित्य मनसा मन्वादीरितधर्मकान् आचार्येभ्यः सदा भूपशृणोति विधिपूर्वकम् न कोऽप्यन्यायवर्तितस्य राज्येह्वरोऽपि च धर्मेण पाल्यमानस्य तस्य देशस्य भूपतेः जातं समत्वं स्वर्गस्य सौराज्यस्य शुभावहं स चैकतादुनृपतिर्मृगयायां महावने मन्त्र्यादिभिः परिवृतो बभ्राम मध्यभास्करं दैवादाखेड शून्यस्य ह्यदिश्रान्तस्य तत्र वै नृपरीतस्य संजातं सरसो दर्शनं नृप ततः शुष्कां सरसीं दृष्ट्वा तत्र किमयं सरसी शृङ्गे भुवक्केन विनिर्मिता कथं जलं भवेदत्र येन जीवेदयं नृपः तदो बुद्धिः समभवत्खाते तस्या नृपोत्तम अस्तमात्रं तदो गर्तं खात्वा तोयमवाप्तवान् तेन तो येन पीतेन राज्ञरजायत मन्त्रिणश्चाभिभूमिश बुद्धिसागरसञ्ज्ञिनः स बुद्धिसागरो भूपं प्रागधर्मार्थकोविदः राजन्नियम् पुष्करिणी वर्षा जलवदी पुरा अध्ययनाम् बद्धवप्रां च कर्तुम् जादा मदिर्मम तद्भवान्मोददां देवदत्तादाज्ञां च इति श्रुत्वा वचस्तस्य मन्त्रिणो नृपसत्तमः मो मोदेति तरम्भूपस्वयम् कर्तुम् समुद्यतः तमेव मन्त्रिणम् तत्र युयोजशुभकर्मणि ततो राजाज्ञया सोऽपि बुद्धिः सरसीं सागरं कर्तुमुद्य पुण्यकृत्तमः धनुषां चैव पञ्चाशत् सर्वदो विस्तृदायदां सरसिं बद्धसुशीलां चकारागाथ शम्भरं तां विनिर्माय सरसिं राज्ञे सर्वं न्यवेदयद तस्यां ततः प्रभृति वै सर्वेऽपि वनचारिणः पान्धा पिपासिदाभूफ लभन्ते स्म जलं शुभं कदाचित् स्वायुषश्चान्ते समन्द्रीबुद्धिसागरः प्रमृदोगदल्लोगं लोगशास्तुर्मम प्रभो तदर्थं तु मया पृष्टो धर्मो धर्मलिम्प्यङ्करः चित्रगुप्तस्तु तत्कर्म मह्यं सर्वं न्यवेदयत् उपदेष्टा स्वयं चासौ धर्मकार्यस्य भूपदेहे तस्माद्धर्मविमानं धर्म तु समारोढुमिकार्षदि इत्युक्ते चित्रगुप्तेन समाज्ञप्तो मया नृप विमानं धर्मसंज्ञम् तु आरोढुं बुद्धिसागरः अथ कालान्तरे राजन् स राजा वीरभद्रकः मृदो गदो ममस्थानं स्थानम् नमश्चक्रेमुदान्विदः मया तु तत्र तस्यापि पृष्टम् कर्म किलम् नृप चित्रगुप्तेन धर्मम् सरसि सम्भवम् तदा सम्यं मया राजा बोधितो भूद्यथा धीत्यकायाम्भूपालसैकतस्य गिरेः परा लावकेनामुना चञ्ज्वा कादं द्वि अङ्गुप्रलम्बुनि तथकालान्तरे तेन वाराहेण नृपोत्तम खनितं हस्तमात्रं तु जलं तुण्टेन चात्मनः तदोऽन्यदामुया काल्या हस्त युग्ममिधकृदः कादो जले महाराज तोयं मासद्वयं स्थितम् पीदं क्षुद्रैर्वनचरैर्सत्वैस्तृष्णा समाकुलैः ततो देदु गजतानेन सुव्रत हस्तत्रयमिद खादकृदस्तत्राधिकं जलम् मासत्रये स्थितं तच्च पयो जीवैर्वने शरैः भवांस्तत्र मासे तत्र दुः सम्प्राप्तं हस्तं खात्वा जलं नृप तातस्तस्योपदेशेन मन्त्रिणो नृपदे त्वया धनुरुत्खादम् कादं, कादं जादं, तत्र महाजलम् पुनः शिलाभिः सुदृढम् बद्धम् जातम् महत्सरः वृक्षाश्च रोपितास्तत्र सर्वलोकोपकारिणः तेन स्वस्वेन पुण्येन पञ्चैते जगदीपदे विमानम् धर्म्य मारुढास्तोमान्येनम् समारुह इति वाक्यम् समाकर्ण्य मम राजा स भूमिप आरुरोहविमानम् तत् षष्ठो राजा समांशभाक् इदि ते तडाग जनितम् फलम् श्रुत्वै तन्मुच्यते पापाधा जन्ममरणान्तिकाध यो नरश्रद्धयो युक्तो व्याख्यातम् शृणुयात् पठेत सो so, सोऽप्याप्नोत्यखिलं पुण्यं सरोनिर्माणसम्भवम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने द्वादशोऽध्यायः ॐ